हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे पञ्चविंशत्यधिकशतसमत्सर्गः हनुमता निषादराजम् गुहम् श्रीभरतम् चोपगम्य श्रीरामागमनस्य सूचनम् ततः प्रसन्नेन भरतेन तस्मात् उपहारम् दातुम् उद्घोषणम् च अयोध्यां तु समालोक्य चिन्तयामास राघवः प्रियकाम प्रियं राम ततः सरीत विक्रमः चिन्तयित्वा ततो दृष्टिं वानरेषु निपातय उवाच धीमा तेजस्वी हनुमन्तं प्लवङ्गमम् अयोध्यां त्वरितं गत्वा शीघ्रं प्लवदत्तमः जानीहि कश्चित् कुशली जनो नृपति मन्दिरे शृङ्गभीरपुरं प्राप्य गुहं गह न गोचरम् निशादाधिपतिं ब्रूहि कुशलं वचनान् मम श्रुत्वा तु माहं अरोगं विगतज्वरं भविष्यति गुहप्रीत स ममात्मा समस्त अयोध्या याचते मार्गम् प्रवृत्तिं भरतस्य च निवेदिष्यति प्रीतो निजादाधिपतिर्गुह भरतस्तु त्वया वाच्य कुशलं वचनान् मम सिद्धार्थं च मां तस्मै सभार्यं स लक्ष्मणं हरणं चापि वैदेह्यावणेन बलीयस सुग्रीवेण च संवादम् वालीनश्च वधम् मैथिल्यन्वेषणं चैव यथा चाधिकता त्वया लङ्घयित्वा मातोऽयम् आपगपतिमव्ययम् उपयानम् समुद्रस्य सागरस्य च दर्शनं यथा च कारितसेतु रावणश्च यथाहत वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च महादेव प्रसादाच्च पित्रा मह समागमम् उपयातं च मां सोम्य भरताय निवेदय सः राक्षसराजेन हरिणामीश्वरेण च जित्वा शत्रुघ्नान् राम प्राप्य चानुत्तमम् यच्छ उपायाति समृद्धार्थ सह मित्रैर्महाबलैः एतत् श्रुत्वा भजते भरतस्ततः स च सेवेदितव्यस्यात् सर्वं यश्चापि मां निया सर्वे च वृत्तान्ता भरति स्याङ्गितानि च तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च सर्वैकामः समृद्धं हि हस्त्यैश्वरथ सङ्कुलम् पितृपयतामरं राज्यम् कस्य नावर्तयेन्मनः संगत्या भरत ज्येनार्थि स्वयं भवेत् प्रजातु वसुधां सर्वम् अखिलां तस्य बुद्धिं च विज्ञाय व्यवसायम् वानर यावन्न दूरं यातास्म क्षिप्रम् आगन्तुमर्हति इति प्रति समादिष्टो हनुमान् मारुतात्मज मानुषं धारयन् रूपम् अयोध्यां तरितो अथोत्पपातः वेगेन हनुमान् मारुचात्मजः गुरुत्मान् निव वेगेन जिघृक्षन्दुरगोत्तमम् लङ्घयित्वा पितृपथम् यगेन्द्रालयम् शुभम् गङ्गायिमुनयोर्भीमम् समतीत्य समागमम् शृङ्गभीरपुरं प्राप्य गुहमासाद्य वीर्यवान् प्रवाच शुभया हनुमानिदमब्रवीत् सखा तु तव काकुत्सो रामः सत्यपराक्रमः सीतः स सौमित्री स त्वा पञ्चमीं मध्यरजनीं पुषित्वा वजनान्मुनेः भरद्वाजाभ्यनुज्ञातं द्रक्षस्यत्रैव राघवम् एवम् मुक्त्वा महातेजा सम्प्रविष्टूरुः पात् महावेगात् वेगवान् विचारयन् स्वपश्च रामतीं च नदीं वा लुकिनीं तथा वरुथिं गोमतीं चैव भीमां शालवनं तथा प्रया च बहुसा श्री दूरमध्वानं त्वरितः कपिकुञ्जरः आससा द्रुमान् फुल्लान् नन्दे ग्रामसमीपगुराधीपस्य उपवने यथा चैत्र रसेद्रुमान् त्रिभीतपुत्रैः पौत्रैश्च रममाणैः स्वलङ्कृतैः क्रोशमात्रे स्वयोध्याय क्षीरकृष्णाजिनाम्बरम् ददर्श भरतं दीनं कृशमाश्रमवासिनं जटिलं मलदिग्धाङ्गम् भ्रातृ व्यसनकर्षितम् फलमूलाशिनुम् दान्तम् तापसम् धर्मचारिणम् समुन्नतजटाभारम् वल्कलाजिनवासम् नियतम् भावितात्मानम् ब्रह्म शीतमतेजसम् पादुके ते पुरस्कृत्य प्रशासन्तम् वसुन्धराम् चतुर्वर्ण्यश्लोकस्य प्रातरम् सर्वतोभयात् उपस्थितम् ममात्यैश्च शुचिभिश्च पुरोहिते बलमुख्यै च युक्तै च काषायाम्बरधारिभिः नहि ते राजपुत्रम्बरं परिभोक्तुं व्यवस्यन्ति हौरा वै धर्मवत्सलः तं धर्मम् इव धर्मज्ञम् देहबन्धम् इवापरं उवाच प्राञ्जलिर्वाक्यम् हनुमान् मारुतात्मज वसनं दण्डकारण्ये यं तं चिरचता धनम् अनुशोचिकाकुत्थम् स त्वां कौशलम् अब्रवीत् प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् अस्मिन् मुहूर्ते भ्रात्रा सह सङ्गतः निहत्य रावणम् राम पतिलभ्य च मैथिलीम् उपयासि समृद्धार्थ सह मित्रैर्मबलै महा लक्ष्मणश्च महातेजा वैदेही च चे यशस्विनी सीता समग्रा रामेण महेन्द्रेण शचीयथा एवम् उक्तौ हनुमता भरत कैकै सुतल पपाथ स चारुष्टु हान्दोहम् अपागमय ततो प्रत्याश्वस्य च राघव हनुमन्तम् उवाचेदम् भरत प्रियवादिनं अशोकजै प्रीतिमयै कपि मालिङ्गभ्रमात् शिषे च भरत श्रीमान विपुलै अश्रुबिन्दुभि देवो वा मानुषो वा वा समनुक्रोशाद्यागत प्रियाख्यानश्च सौम्य ददामि ब्रुवत गवां चतः सहसं चेत् ग्रामाणां च चे शतं परं स कुण्डला शुभाचार्या बार्या कन्या सुषोडश हेम वर्णासु नासूरु शशि सौम्यान्नाश्रिय सर्वाभरणसम्पन्ना सम्पन्ना कुलजातिभिः निशम्य रामागमनं नृपात्मज कपि प्रवीरस्य तदाद्भुतपमम् भवेत् पुनश्च इत्याशी श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे पञ्चविंशत्यधिकशतमः सर्गः प्रीतिता रामचन्द्रार्पणमस्तु